अष्टकौवाच अष्टकुवाच पूर्वम् पूर्वं सात्मताम् उभयोर्धावतो राजन सूर्याचन्द्रमसोरिव ययातिरुवाच अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरम् गतः अवाप्यदीर्घमायुस्तु यः प्राप्तो विहृतिम् तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः पापानाम कर्मणाम् नित्यम् विभियाद्यस्तु मानवः सुखमप्याचरन् नित्यम् सोऽत्यन्तम् सुखमेधते तद्वैनुशंसम् तदसत्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः अर्थोऽप्यनीशस्य तथैव राजम्स्तदार्जवंश समाधिस्तदार्यम् अष्टकौ वाच केनासि हूतः प्रहितोऽसि राजन् युवास्त्री स्थानमस्ति ययातिरुवाच इमम् भौमम् नरकम् क्षीणपुण्यः प्रवेष्टुमुर्वीम् गगनाद्विप्रहीणः उक्त्वाहम् वः प्रपतिष्याम्यनन्तरम् त्वरन्ति माम् लोकपा ब्रह्मणो ये सताम् सकाशे तु व्रतः प्रपातस्ते सङ्गता गुणवन्तस्तु सर्वे शक्राच्चलब्धो हि वरोमयैष पतिष्यता भूमितलम् नरेन्द्र अष्टकोवाच पृच्छामि त्वाम् मा प्रपत यदि लोकाः पार्थिव सन्ति यद्यन्तरिक्षे यदि वादिविस्थिताः क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये ययातिर्वाच यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च तावल्लोकादिवि ते संस्थितावै तथा विजानीहि नरेन्द्रसिंह अष्टकौवाच तां स्ते ददामि प्रपदप्रपातं ये मे लोकादिविराजेन्द्रसन्ति यद्यन्तरिक्षे यदिवादिविश्रितास्तानाक्रमक्षिप्रमपेतमोह ययातिर्वाच नास्मद्विधो ब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य यथा प्रदेयम् सततम् द्विजेभ्यस्तथादम् पूर्वमहं नरेन्द्र नाब्राह्मणः कृपणो जातु जीवेत् याच्चापि स्यात् ब्राह्मणी वीरपत्नी सोऽहम् नैवाकृतपूर्वम् चरेयम् विधित्समानः किमु तत्प्रसाधु प्रतर्दन उवाच पृच्छामि त्वाम् स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः यद्यन्तरिक्षे तस्य धर्मस्य मन्ये ययातिरुवाच सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्त सप्ताप्यहानि मधुच्युतो घृतपृक्ता विशोकास्तेनान्तवन्तः प्रतिपालयन्ति प्रतर्दन उवाच तांस्ते ददानि माप्रपतप्रपातम् ये मे लोकास्तवते वै भवन्तु यद्यन्तरिक्षे यदि वादिविश्रितास्तानाक्रमक्षिप्रमपेतमोहः ययातिरुवाच न तुल्यतेजाः सुकृतम् कामयेत् योगक्षेमम् पार्थिव पार्थिवः सन् दैवादेशादापदम् प्राप्य विद्वांश्चरे नृशंसम् न हि जातु यतमानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः न मद्विधो धर्मबुद्धिः प्रजानन् कुर्यादेवम् माम् यथाथ कुर्यादपूर्वम् न कृतम् यदन्यैर्विधित्समानः धर्माधर्मौ सुविनिश्चित्य सम्यक् स वै धीमान् सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना यदा भवेत्संशयो धर्मकार्ये कामार्थे वा यत्र विन्दन्ति सम्यक् कार्यम् तत्र प्रथमम् धर्मकार्यम् न तौ कुर्यादर्थकामौ सधर्मः ब्रुवाणमेनम् नृपतिम् ययातिम् नृपोत्तमो वसुमानब्रवीत्तम् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि उत्तर यायाते द्विनवतितमोऽध्यायः